श्रीमद्भागवतमहापुराणम् अष्टं स्कन्धः अष्टमोऽध्यायः तस्या स्त्रियस्त्रिजगतो जनको जनन्या वक्षो निवासमकरोत्परमं विभूते श्री स्वाप्रदासकुरुणेन निरीक्षणेन यत्र चितैधयन्ते शङ्कतुर्यमृदङ्गानां वादित्राणां पृथुष्वन देवानुगानां सस्त्रीणां नृत्यतां गायतामभून् ब्रह्मरुद्राङ्गिरो मुख्या सर्वे विस्पृशिजो विभुम् ईडिरे वितथैर्मन्त्रैस्तुल्लिङ्गैः पुष्पवर्षिणः श्रिया विलोकिता देवा स प्रजापतय प्रजा शैलादिगुणसम्पन्नालेभिरेमृतिं परां निषत्वा लोलपराजन्निरुद्योगागतृपा यदा चोपेक्षिता लक्ष्म्या बभूवुरुदैत्यदानवाह अथासीद्वारुणीदेवी कन्याकमलोचनां असुराजगृहस्तां वैहरेरनुमतेन ते अथोदथैर्मध्यमानाकाशपैरमृतार्थिवी उदतिष्ठन्महाराज पुरुषपरमाद्भुतः दीर्घपीवरदोर्दण्ड कम्बोग्रीवोरुणे क्षण श्यामलस्तरुणसृग्वीं सर्वाभरणभूषितः पीतवासा महूरस्क सुमृष्टमणिकुण्डल स्निग्धकुञ्चितकेशान्तसुभगसिंहविक्रमः अमृतापूर्णकलशं विभ्रज वलयभूषितः स वै भगवतः साक्षाद्विष्णो रंसांशुसम्भव धन्वन्तरीरिति ख्यात आयुर्वेददिगजभास्तमालोक्यासुरा सर्वे कलशं चामृताभृतम् लुप्सन्त सर्ववस्तूनि कलशं तरसाहरन् नियमाने सुरे तस्मिन् कलशे मृतभाजने विसन्नमनसो देवा हरिं शरणमाययो इति तद्यैन्यमालोक्य भगवान्भृत्यकामके माखिद्यत् मिथोऽर्थं वसाधयिष्येषमाययां मिथकलिर्भुत्तेषां तदर्थेतर्सचेतसाम् अहं पूर्वमहं पूर्वं न त्वं न त्वमिति प्रभो देवासं भागमर्हन्ति ये तुल्यायाचहेतव सत्र यागैवेतस्मिन्नेव स धर्मसनातनः इति स्वा प्रत्यथे धन्वै दैतेया जातमशरा दुर्बला प्रबलान् राजन् गृहीतकुलशान्मो एतस्मिन्नन्तरे विष्णु सर्वोपायविधीश्वर योषेद्रुपमणिजे शं दधार परमाद्भुतं प्रेक्षणीयोत्पलश्यामं सर्वावयवसुन्दरं समानकर्णाभरणं शुकपोलोऽनसाननं न यौवन्वित्तस्तन्नम् भारकेशोदरं मुखमोदानुरक्ता लिञ्झां झंकारोद्विघ्नलोचनं बिभ्रत्व केशभारेण मालामुद्फुल्लमल्लिकां सुग्रीवकण्ठाभरणं सुभजाङ्गदभूषितं विजाम्बरसंवितनितम्बदृपशोभया काञ्चा प्रभुलस्तद्गुल् वल्गुञ्चलच्चरणं नो पुरम् सा वृढस्मेतविक्षिप्त भ्रोविलासावलोकनै दैत्ययूथ पतेत सुकाममुद्दीपयन्मोहो इति श्रीमद्भागुते महापुराणे पारं हंसां सहितायाम् अष्टाम् अस्कन्धे भगवन्मायोपलम्भनं नामाष्टमोऽध्यायः